नमस्सर्वेभ्यः अस्माकं योगनिष्ठुजीवनम् इति वर्गे सर्वेषां स्वागतम् अत्र गतवर्गे अस्माभिः साधनायाः विषये चर्चितमासीत् तत्र साधना साधना इत्युक्ते मेडिटेशन् इति अर्थः साधना नाम चेष्टा अथवा प्रयत्नः प्रयत्नः इति अर्थः साधनायां तत्र आदौ परिश्रमस्य आवश्यकता भवति प्रारम्भिकस्तरे साधनायां परिम परिश्रमस्य आवश्यकता भवति यतोहि प्रारम्भिकस्तरे विघ्नाः अधिकाः भवन्ति शारीरिकस्तरे अपि विघ्नाः भवन्ति अपि च मानसिकस्तरे अपि विघ्नाः भवन्ति एतेषां विघ्नानाम् अतिक्रमणम् आवश्यकम् अग्रे गमनार्थं तर्हि तर्हि शारीरिकस्तरे कीदृशविघ्नाः भवन्ति इति चेत् शारीरिकस्तरे तत्र पद्मासने उपवेष्टुं कष्टः कष्टं भवति अथवा तत्र अधिकसमय अधिकसमयम् उपवेष्टुं न शक्नुमः तत्र युनो you know, पेन् इन् द नेक् नी एतादृशं शारीरिकक्लेशाः भवन्ति अथवा साधनां कर्तुं रुचिः अपि न भवति प्रारम्भिकस्तरे इति एतादृशक्लेशाः भवन्ति अपि च मानसिकस्तरे यदि साधनायाम् उपवेशामः मा, उपविशामः चेदपि तत्र मनः परमात्मनि संलग्नं न भवति मनः इतः ततः भ्रमति वानरः इव चञ्चलः चञ्चलं भवति मनः अतः तत्र मानसिकस्तरे अपि क्लेशाः भवन्ति एतेषां क्लेशानाम् अतिक्रमणं आवश्यकमस्ति तर्हि यदा तत्र परमात्मानं प्रति आकर्षणं वर्धते तदानीमेव क्लेशाः न्यूनाः भवन्ति यदा परम परमपुरुष पुरुषं प्रति गहनतया आकर्षणं यावत्पर्यन्तं न वर्धते तावत्पर्यन्तं तत्र क्लेशः अनुभूय अनुभूयन्ते क्लेशः अनुभूयन्ते तर्हि वस्तुतः यदा तत्र साधनायां रुचिः यदा वर्धते तदानीं तत्र साधना इति तु आनन्दस्य विषयः अस्ति साधनायां यदा वयम् उपविशामः तदानीं अस्माकम् आनन्दः वर्दते एव इत्युक्ते तत्र अधिकसमयं न उपविशामः अथवा मनः इतः ततः भ्रमति तथापि तथापि साधनायाः अनन्तरम् अस्माकं कश्चन तत्र रिफ्रेश्ड् भवति मनस् मनः रिफ्रेश्ड् भवति मनसि आनन्दः भवति एव इति कृत्वा तत्र शनैः शनैः यदा पुनः पुनः अभ्यासेन यदा साधनां पुनः पुनः कुर्मः तदानीं किं भवति इति चेत् अस्माकम् आकर्षणं वर्धते परमपुरुषं प्रति आकर्षणं वर्धते तादृशी तादृशम् आकर्षणमेव तत्र भक्तिः इति वयं वदामः इत्युक्ते तत्र एता तत्र उदाहरणमपि मया दत्तमासीत् शिशुः बालकः शिशुः तत्र मातुः कार्यानस्य कुञ्चिकां स्वीकृत्य क्रीडनं करोति तर्हि सः माता पृच्छति ददातु इति परन्तु शिशुः न ददाति तदानीं तत्र किं कर्तव्यम् इति चेत् माता यदा तत्र शिशुं प्रति नूतनं क्रीडक क्रीडनकं किमपि अन्यत् उत्तमं क्रीडनकं ददाति तदानीं तत्र किं शिशुः किं करोति इति चेत् झटिति तत्र क्री कुञ्चिकां तत्र कुञ्चिकायां रुचिः इदानीं नष्टा यतोहि नूतन नूतनं क्रीडनकं प्राप्तम् इति एवमेव यः यः मनुष्यः अस्ति तस्य लौकिकवस्तूनि अभिरुचिः लौकिकवस्तुभ्यः सः मोहितः अस्ति लौकिकवस्तु वस्तूनि प्राप्तुमेव सः इच्छति परन्तु तत्तु तावत्पर्यन्तं भवति यावत्पर्यन्तं परमपुरुषं प्रति आकर्षणं न वर्धते यदा परमात्मनं प्रति अस्माकं अभिरुचिः वर्धते आकर्षणं वर्धते तदानीं किं भवति इति चेत् झटिति वयं तत्र लौकिकवस्तूनि यानि लौकिकवस्तूनि सन्ति तेषु अस्माकं रुचिः न्यूना भवति तेषु अस्माकं रुचिः एव न भवति तेभ्यः अस्माकम् आकर्षणमपि न भवति यतोहि अस्माकम् आकर्षणम् इदानीम् इतोपि उन्नतविषये विषये अस्माकम् आकर्षणं वर्धितमस्ति खलु यथा शिशोः विषये आसीत् तथैव अस्माकमपि इदानीम् आकर्षणं परमात्मानं प्रति आकर्षणं वर्धितं वर्तते इति कृत्वा तत्र लौकिकवस्तूनां विषये अस्माकम् आकर्षणं नास्ति आकर्षणं नास्ति तादृश आकर्षणं परमात्मानं प्रति यद् आकर्षणं यद् आकर्षणम् अस्ति अथवा प्रेमभावः यः भावः अस्ति सा सः भावः एव भक्तिः इति वयं वदामः कदाचिदपि वयम् अस्माकं मनः कथमस्ति इति वयं तोलयितुं शक्नुमः मापयितुं शक्नुमः मनः कथमस्ति इदानीम् अधः अधः अस्ति वा उपरि उपरि आगतमस्ति वा इति वयं तोलयितुं शक्नुमः यदा अस्माकं भक्तिभावः वर्धते तत्र भक्तिभावः इति यद्वदामः तत्तु रिच्युवल्स् इत्यनेन न कोऽपि सम्बन्धः अस्ति भक्तिभावः इति तत्र शुद्धप्रेमभावः परमात्मानां प्रति शुद्धप्रेमभावः यः भावः अस्माकम् अस्माकं हृदि अस्ति तादृशभावः एव भक्तिः इति वदामः तत्र तत्र जनानां स्वस्य मनसः मनसः स्थितिः कथमस्ति इति अनुसृत्य स्वस्य आकर्षणं तत्र आकर्षणस्य विकासः भवति तर्हि स्थूलवस्तूनि प्रति मनः आकृष्टं चेत् तदानीं मनः स्थूलं भवति इत्युक्ते तत्र डिजनरेटेड् भवति मनः यदि मनः अधिकम् उपरि मनः अधिकम् उपरि आगतं चेत् तदानीं ब्रह्मणं प्रति ब्रह्म प्रति आकर्षणं भवति तर्हि अस्माकं रुचिः अरुचिः इत्यनयोः निरीक्षणेन इत्यनयोः विषये यदा वयं पश्यामः तदानीं मनसः औन्नत्यं मापयितुं शक्नुमः इदानीं मम मनः कथम् अस्ति अधः अस्ति वा उपरि आगतमस्ति वा इति वयं मापयितुं शक्नुमः इत्युक्ते तत्र आ, तत्र इत्युक्ते क कश्चन शाकाहारी शाकाहारी अभवत् इत्युक्ते मांसभोजनं त्यक्तवान् तथापि तस्य मनसि मांसं प्रति आकर्षणं वर्तते वर्तते तद् इत्युक्ते इदानीमपि तस्य मनसि मांसं प्रति आकर्षणं वर्तते तर्हि तदानीं वयं तोलयितुं शक्नुमः अस्माकम् अस्माकं मनः कथम् अस्ति इतोपि अधिकं कार्यं वर्तते अस्माकं मनसः वर्धनार्थम् इति वयम् अवगन्तुं शक्नुमः इदानीमपि अस्माकं मनः स्थूलवस्तुभ्यः आकृष्टं भवति भवति चेत् तदानीम् अस्माकं मनः कथमस्ति इति वयं ज्ञातुं शक्नुमः अस्माकम् एतेषां सर्वेषाम् अधम अधमाकर्षणानाम् अथवा स्थूलाकर्षणानाम् अतिक्रमणं कर्तुं कथं स्थूलाकर्षणानाम् अतिक्रमणम् अतिक्रम अतिक्रमणं कर्तुं शक्नुमः इति चेत् यदा परमात्मानं प्रति आकर्षणं वर्धते तदानीं स्थूला स्थूलाकर्षणानां तत्र अतिक्रमणं सुलभं भवति इति तत्र मुख्यविषयः अस्ति कथं तत्र लौकिकवस्तुभ्यः मुक्तिः कथं वयं प्राप्तुं शक्नुमः इति प्रश्ने सति यावत्पर्यन्तं यथा शिशुः कार्यानस्य कुञ्चिकां यत् न त्यजति यावत्पर्यन्तं तस्य पार्श्वे अन्यत् इतोपि उत्तमं क्रीडनकं न शिशुना न प्राप्यते तावत्पर्यन्तं सः कार्यानस्य कुञ्चिकां न त्यजति तथा यावत्पर्यन्तम् अस्माकं आकर्षणं परमात्मानं प्रति न वर्धते तावत्पर्यन्तं लौकु लौकिकवस्तुभ्यः अस्माकम् आकर्षणं भवति इति तद् तर्हि मुख्यविषयः कः इति चेत् अस्माभिः परमात्मानं प्रति आकर्षणं वर्धनीयम् अस्ति तदानीमेव तत्र लौकिकविषयेषु अस्माकम् आकर्षणं न्यूनं भवति स्थूलवस्तुषु आकर्षणं स्थूलवस्तुषु आकर्षणं नष्टं भवति इति वयं द्रष्टुं शक्नुमः तर्हि अतः सारांशः कः इति चेत् मनसि अनन् मनसि अनन्तेषन अस्ति इति वयं जानीमः परन्तु मनः सामान्यतया लौकिकवस्तुभिः सहजतया विचलितं भवति परन्तु एकदा तत्र अस्माकं परमलक्ष्यस्य साक्षात्कारं करोति तदा तदानीं तत्र तस्य नेत्राणि उद्घाटितानि भवन्ति यदा तदानीं तत्र सः तदानीं तत्र अध्यात्मिक आध्यात्मिकमार्गे सः आगच्छति तदानीं तत्र परमपुरुषं प्रति अस्माकम् आकर्षणं संवर्धनीयम् इति एव मुख्यविषयः अस्ति तत्र, तत्र आरम्भे अनुशासनेन आरभ्यते आरम्भे अनुशासनेन आरम्भ्यते परन्तु अनुशासनम् अस्ति चेदपि यावत्पर्यन्तम् अनन्तं प्रति वास्तविकम् आकर्षणं न भवति तावत्पर्यन्तं न न कोऽपि लाभः आरम्भे तु अनुशासनम् आवश्यकमेव परन्तु अनुशासनं तदनन्तरं तत्र डिसिप्लिन् तदनन्तरं हेबिट् इति भवति तदनन्तरं स्वस्य स्वभावः भवति स्वभावः भवति यदा तत्र योगनिष्ठजीवनमिति अस्माकं स्वभावः भवति तदानीं तत्र शनैः शनैः परमात्मानं प्रति आकर्षणमपि वर्धते इति तत्र साधनायाः विषये वक्तुम् इष्टवती ततः अग्रे तत्र शरीरे सात्विकस्पन्दनं भवेत् इत्युक्ते सात्विकम् इति वयम् आरभतः एव वदन्तः स्मः इत्युक्ते अस्माकं शरीरं सात्विकं भवेत् तत्र शरीरे ये कोशाः सन्ति सेल्स् आफ् द बाडि सात्विकं सेल्स् आफ़् द बाडि शुद्धकं सात्विकं दि मैण्ड् शुद्धकं सात्विकम् एव्रिथिङ्ग् अवर् एन्टैर् एक्सिस्टेन्स् श्रुतिकं सात्विकम् इति वयम् आरभतः एव वदन्तः स्मः तर्हि अत्र मनः तु शरीरे वर्तते इति वयं जानीमः अतः शरीरस्य सर्वेषां कोशानां सात्विकस्पन्दनं भवति चेत् मनः मनसः मनसः अपि मनसि अपि सात्विकस्पन्दनं भवति मनसः अपि सं संवर्धनार्थं तत्र सहायकं सा, भवति तर्हि अस्माकम् अस्माभिः चर्चितानां विविधानाम् अभ्यासानां मुख्यकारणम् एतदेव किं किमर्थम् एते अभ्यासः इति चेत् एतैः अभ्यासैः अस्माकं मनः वर्धते मानवशरीरं मनः च अस्माभिः प्रयोगशालारूपेण कृत्वा वयः वयं मनसः औनत्यं प्राप्तुं भिन्नभिन्नमार्गेषु भिन्नभिन्न उपासनानां प्रयोगं कुर्मः भिन्नभिन्न प्रयोगं कुर्मः तदर्थमेव तत्र सात्विकाहारः इति मुख्यविषयः अस्ति सात्विकाहारे होल् होल् फुड् प्लाण्ट् पेस्ट् डयेट् तत्र तत्र आनियन् गार्लिक् इति सर्वम् अस्तु तदनन्तरं यदाहारं वर्जितमस्ति तैलेन वर्जितमस्ति तदपि अस्माभिः त्याज्यम् अनन्तरं तत्र क्षीरं दुग्धम् इत्यादयः अपि च अन्ये एनिमल् पशुभ्यः आगताः पदार्थाः अस्माभिः त्याज्याः तर्हि तदर्थं सात्विकभोजनस्य परिचयः तत्र मोर् रा फुड्स् uh, आनियन् uh, गार्लिक् एतत् सर्वं त्य ते, त्यक्तव्यम् अनन्तरं ओयिल् uh, फ़ूड्स् ते इति सर्वं त्यक्तव्यम् इति सर्वम् अस्माभिः दृष्टं किमर्थं यते अभ्यासाः आसनानि भोः आहारः इति एतत् सर्वं किमर्थम् इति चेत् तत्र तेन अस्माकं शरीरे सात्विकस्पन्दनं जायते सात्विकस्पन्दनं जायते सात्विकस्पन्दनं यदा जायते शरीरे तदानीम् अस्माकं कोशाः अपि सात्विकाः भवन्ति मनः अपि सात्विकाः भवन्ति परन्तु किं स्मर्तव्यम् इति चेत् एते अभ्यासाः ये अभ्यासाः अस्माभिः चर्चिताः ते अभ्यासाः स्वयमेव अन्ताः न सन्ति ते मनुष्यस्य अनन्तं प्रति गन्तुं सहज इच्छां सहजेच्छां वर्धयन्ति तत्र इत्युक्ते दीस् प्रक्टिसस् आर् नाट् एण्ड् but they are no doubt important they are important but they are not the end goal of life etasaride rupena a swasthah bhavati che if you are healthy tarhi ah parantu tadeva asmakam jivanase lakshyam iti nasti swasthyam eva asmakam jivanase lakshyam iti nasti swasthyam tu avashyakam asti agre gamanaartham swasthyam avashyakam asti manasah samruddhyartham satvik vaatavaranam asmavih nirmatavyam तदेव अस्माकं लक्ष्यमस्ति यदि शारीरिकरूपेण स्वास्थ्यम् अस्ति परन्तु अनन्तं प्रति ध्यानं कर्तुं मनः न प्रवर्तते तर्हि जीवनस्य उद्देश्यं न पूरितमस्ति इत्युक्ते अस्माकं जीवनस्य लक्ष्यं किम् इति स्पष्टता भवेत् मनः कदापि समानं न तिष्ठति इति तत्र इम्पार्टेण्ट् तिङ्ग् क्रिटिकल् पायिण्ट् मनः कदापि समानं न तिष्ठति सर्वदा उपरि गच्छति अथवा अधः अधः गच्छति कदापि समान समानस्थितिं न प्राप्नोति अधिकम् औन्नत्यं प्राप्नोति अथवा अधिकम् अधः अद, गच्छति कदापि समानं न तिष्ठति तत्र यत् यथा मनः चिन्तयति तथा तद्वत् भवति मनः इति अस्माभिः पूर्वमपि चर्चितं तर्हि यदि धनस्य विषये चिन्तनं भवति चेत् धनस्य विषये अधिकं चिन्तनं भवति चेत् मनः धनं धनवत् भवति तर्हि अतः यत्किमपि वयं कुर्मः लौकिकजीवने का यत्किमपि कार्यं वयं कुर्मः तद् ईश्वरार्पणबुद्ध्या अस्माभिः ईश्वरार्पणबुद्ध्या अस्माभिः कर्तव्यं परमात्मा परमात्मानं प्रति समर्पणीयं यत्किमपि वयं धनस्य सञ्चयं कुर्मः चेदपि तत्सर्वं परमात्मनः कृते एव मम कृते किमपि नास्ति इति तादृशभावः अस्माकं मनसि भवेत् तदानीमेव वर्धनं भवति अपि च अन्यः अपि विषयः अस्ति यत् जगत् सर्वदा चलनशी चलनशीलम् अस्ति सर्वदा तत्र जगत् चलत् चलत् एव भवति अत्र जगति किमपि समान समानस्थित्यां न भवति सर्वदा जगति सर्वं जगति सर्वं चलत् एव भवति एवम् अत्र मनः अपि जगतः अंशः अस्ति इति कृत्वा मनसि अपि तत्र चलनम् अस्ति ऊर्ध्वं गच्छति अधः वा गच्छति उन्नतम् औन्नत्यं प्राप्नोति अथवा क्षीणं वा भवति तर्हि तत्र योगः इत्युक्ते परमात्मन सह ऐक्यम् इति उक्तं तादृश ऐक्यं प्राप्तुं मनसः औन्नत्यम् अपेक्षितं यावत्पर्यन्तं मनः औन्नत्यं न प्राप्नोति तावत्पर्यन्तम् ऐक्यम् ऐक्यस्य अपि न शक्यते तस्य तत्र औन्नत्यस्य अभावे प्रयत्नस्य अभावे तर्हि यदा मनः लौकिकविषयेषु एव तरति लौकिकविषयेषु एव सञ्चरं करोति विचारं करोति तदानीं क्षीणतां प्राप्नोति यथा चिन्तयति तद्वत् भवति यदि मनः धनं चिन्तयति तर्हि मनः धनासक्तं भवति धने एव रुचिः भवति धने अभिरुचिः भवति परन्तु यदा परमपुरुषस्य सेवा इति विचारेण धनं धनस्य सम्पादनं करोति तर्हि धनम् अस्माकम् इट् नाट् बिकम् द एण्ड् पोइण्ट् धनम् अस्माकं अन्तिमलक्ष्यं न भवति तथैव यत्किमपि वयं कुर्मः परमपुरुषस्य यन्त्ररूपेण अस्माकं शरीरम् उपयुज्य करणीयं बिकम् लैक् दि अ टूल् like फार् uh, परमपुरुष साधनाभ्यासेन वयं uh, साधनाभ्यासेन वयं सात्विकं वातावरणं निर्मामः यदस्माकम् आध्यात्मिकवृ वृद्धिं समर्थयति तदा तु यत् प्राप्तम् अस्माभिः जन्मप्राप्तमस्मिन् मानुष्यशरीरे तत् पूरितं भवति यत् अतः यत्किमपि वयं कुर्मः प्रतिदिनं तत् सर्वं तत्सर्वं केवलम् अस्माकम् आध्यात्मिकवृद्ध्यर्थमेव आध्यात्मिकं वृद्ध्यर्थमेव वयं किमपि कुर्मः यत्किमपि वयं कुर्मः तद् आध्यात्मिकवृद्ध्यर्थमेव आध्यात्मिकवृद्धिः कथं वयं प्राप्तुं शक्नुमः एते अभ्यासाः ये अभ्यासाः अस्माभिः चर्चिताः ते तु एव तद् अतिरिच्य अन्यदपि आवश्यकमस्ति तत् किम् इति चेत् सत्सङ्गः सत्सङ्गः इति बहु मुख्यः विषयः अस्ति सत्सङ्गः यदि अस्माकं सङ्गः समीचीनं नास्ति तर्हि मन मनसः वर्धनं कदापि न अस्माभिः ज्ञायते मनः समानरीत्या न इति अस्माभिः ज्ञायते तर्हि यदि अस्माकं सङ्गः समीचीनं समीचीनः सङ्गः नास्ति तदानीं मनसः मनसः अधः पतनं तु निश्चितं निश्चितमस्ति अतः प्रतिक्षणं मनः उपरि गच्छति अथवा तस्य आतास, क्षयः भवति कदापि समानं न तिष्ठति तर्हि परमपुरुषं प्रति भक्तिः भक्तिभावं विना मनः अविद्यामायायां द्रसितं भवति अविद्यामाया मायां द्रसितं भवति अतः तत्र मनः स्वभावतया अन्यत्र एव गच्छति लक्ष्यात् अन्यत्र गच्छति उपरि न गच्छति अधः एव गच्छति यदा तत्र गृहात् बहिः गच्छामः अथवा गृहे अपि अस्माकम् आकर्षणानि सर्वत्र सन्ति खलु तत्र बौद्धिकजगति अस्माकं तत्र सर्वत्र अस्माकं परितः सर्वत्र आकर्षणानि सन्ति अतः अस्माभिः अस्माकं, अस्मा अस्माकं लक्ष्यं प्राप्तुं चेतनया चेतनया सचेतनया प्रयत्नः करणीयः अन्यथा किं भवति इति चेत् लौकिकविक्षेपैः लौकिकविक्षेपैः मनः अधः पतति मनः अधः पतति यदा अधः पतति तर्हि तत्र मनः स्थूलं भवति यदा मनः स्थूलं भवति तर्हि अग्रिमजन्मनि अस्माकं कीदृशम् अस्माकं जन्म भवति इति वयं न वक्तुं शक्नुमः यदा मनः बहु बहु स्थूलं भवति तदानिम पशुः पशुः पशुभ्यः अपि इतोपि अधः अपि भवितुं अर्हति इति कृत्वा तत्र अस्माभिः सर्वदा अस्माकं मनसः औन्नत्यर्थं प्रयत्नः अस्माभिः करणीयः अस्ति तर्हि मनसः ऊर्ध्वगमनार्थं सहायं कर्तुम् अस्माभिः ये विषयाः चर्चिताः अनुशासनं च अभ्यासः च अस्माभिः करणीयः यथा साधना सात्विकभोजनं योगाभ्यासः योगासनानि इत्यादयः तत् तत्सर्वं तत्सर्वम् आवश्यकम् एव तत् अतिरिक् तदतिरिक्तम् अस्ति सत्सङ्गतिः अथवा सत्सङ्गः सत्सङ्गतिः अथवा सत्सङ्गः इति अपि बहु महत्त्वपूर्णविषयः अस्ति तर्हि सत्सङ्गः तर्हि सत्सङ्गः इत्युक्ते किं सत्सङ्गः नाम किम् इति चेत् तत्र इट् इस् बीङ्ग् इन् द कम्पनी आफ़् दोस्ट् हु इन्स्पैर् एण्ड् गैडेस् टुवर्ड्स् परमपुरुष दट् इस् टु परमात्मा तदेव सत्सङ्गः परमपुरुषं प्रति अस्मान् प्रेरयति मार्गदर्शनं च यत् करोति यः सङ्गः अस्माकं प्रेरणा प्रेरणारूपेण अस्ति अस्माकं मार्गदर्शनं करोति तादृशसङ्गः अस्माभिः स्वीकर्तव्यः योगिनां सङ्गतिः भवेत् सज्जनानां सङ्गतिः भवेत् ये सज्जनाः इत्युक्ते केवलं ये केवलं सम्यक् कार्यं करोति इति न योगिनः इत्युक्ते ये परमपुरुषं परमपुरुषस्य विषये चिन्तनं कुर्वन्ति परमपुरुषस्य विषये एव चर्चां कुर्वन्ति आध्यात्मिकदिशि एव ये गच्छन्ति तेषां सङ्गः अस्माकम् अति आवश्यकम् अस्ति तदानीमेव अस्माकम् आध्यात्मिक वृद्धिः संवृद्धिः भवति नो चेत् यथा मनः चिन्तयति तथा आकारं गृह्णाति यदि वयं कुसङ्गे भवामः तदानीं तत्र असमीचीनविषयाः चर्चिताः भवन्ति इति कृत्वा मनः तस्मिन् विषये एव रुचिं प्राप्नोति इति कृत्वा मनः अन्ततो गत्वा अधः एव पतति परन्तु अस्माकं सङ्गः सम्यक् अस्ति इति चेत् तदानीम् अस्माकं मनसः वर्धनं भवति यथा अस्माभिः अत्र अस्माकं वर्गेषु चर्चां कुर्मः अस्माकं चर्चा तु लौकिकविषयाणां लौकिकविषये तु नास्ति अस्माकं चर्चा अस्माकं चर्चा, चर्चा तु तर् चर्चा तु अध्यात्मकवृद्धिः कथं भवितुम् अर्हति अस्माभिः किं कर्तव्यम् अस्मिन् मार्गे अस्य विषये अस्ति खलु अस्माकं चर्चा इति कृत्वा तद् अतिरिक्तं किमपि नास्ति अस्माकं वर्गेषु चर्चा इति कृत्वा अस्माकं चिन्तनम् अत्र यावत्पर्यन्तं वर्गे वयं भवामः तदानीम् अस्माकं सत्सङ्गः एव अस्ति अस्माकं मनः मनसः वर्धनं भवति यदि अस्माकम् अभिरुचिः अस्ति अस्मिन् कान्सन्ट्रेटेड् रूपेण वयम् अत्र किं वदामः इत्यस्मिन् विषये तत्र वयं तत्र किं लग्नं भवामः तदानीम् अस्माकं मनः वर्धते एव वर्गानन्तरं वयं पश्यामः चेत् इदानीं मम मनः कथम् अस्ति अहं पश्यामि चेत् तदानीम् अहं तु इदानीं सम्भाषणं करोमि परमात्मन परमात्मनः विषये एव सम्भाषणं करो करोमि भव भवन्तः अपि तस्मिन् विषये एव शृण्वन्ति इति कृत्वा वर्गस्य अनन्तरमपि भवन्तः द्रष्टुं शक्नुवन्ति यत् भवन्तः मनः वस्तुतः वर्धितम् अस्ति न तु न पतितं वर्धितमेव अस्ति मनः इति तत्र मनसः वर्धनं जातम् इति वयं ज्ञातुं शक्नुमः तर्हि इदानीम् अत्र यदि कश्चन यः आल्कोहोलिक् अस्ति सः मद्यपानस्य त्यागं कर्तुम् इच्छति तदर्थं प्रयत्नं कर्तुम् इच्छति परन्तु सः प्रयतमानः अस्ति सङ्घर्षमपि करोति परन्तु यदि तस्य सर्वाणि मित्राणि मद्यपानं कुर्वन्ति चेत् तर्हि कदापि सः मद्यपानं त्यक्तुं न शक्नोति इत्युक्ते तस्य सङ्गः कुसङ्गः अस्ति अतः यावत्पर्यन्तं सः मित्राणि न त्यजति तावत्पर्यन्तं सः मद्यपानं त्यक्तुं न शक्नोति तथैव अस्माभिः अस्माकं पार्श्वे तर्हि योगस्य आध्यात्मिकस्य साधकाः ये सन्ति तेषां तेषां पार्श्वे गत्वा अस्माभिः सम्भाषणं परमात्मान परमात्मनः विषये कुर्मः इति चेत् अस्माकं मनः तु वर्धते तर्हि तर्हि अस्य अर्थः कः इति चेत् इत्युक्ते यः अस्मिन् आध्यात्मिकमार्गे अस्ति तर्हि सः किं तेन किं कर्तव्यम् इति चेत् तस्य मित्राणि तथा एव भवेयुः ये अस्मिन् मार्गे तेषामपि अभिरुचिः अस्ति तादृशमि मित्राणि अस्माकं पार्श्वे अस्माभिः स्थापितव्यानि यतोहि तेन किं भवति इति चेत् अस्माकमपि आध्यात्मिकविषये अभिरुचिः वर्धते यदि अस्माकं सर्वाणि मित्राणि अन्यत्र लौकिकविषयेषु एव तेषां ध्यानम् अस्ति तर्हि किं भवति इति चेत् तस्य प्रभावः अस्माकम् उपरि अपि आगच्छति अतः ये तत्र सिन्सियर् ये सिन्सियर् साधकाः सन्ति ते किं कुर्वन्ति इति चेत् ये पुरातनमित्राणि सन्ति तेषां सह सहवासं न कुर्वन्ति यतोहि किं भवति इति चेत् तस्य प्रभावः अस्माकं मनसः उपरि भवति खलु इति कृत्वा ये अस्मिन् मार्गे सन्ति आध्यात्मिकमार्गे सन्ति ते किं कुर्वन्ति इति चेत् ते नूतनमित्राणाम् अन्वेषणं कुर्वन्ति ये मित्राणि साधकाः सन्ति तादृशमित्राणाम् अन्वेषणं कुर्वन्ति इति अत्र मुख्यवार्ता अस्ति अतः अतः यत्किमपि वयं प्रातः प्रातःकालात् आरभ्य यत्किमपि वयं कुर्मः तत्र अस्माभिः द्रष्टव्यम् अत्र अहं केन केन सह अहं सहवासं करोमि इत्युक्ते अस्माकं जीवनं बहु लघु अस्ति आयुः बहु अल्पः अस्ति अतः वयं न जानीमः कदा अस्माकम् अन्तिमदिनं भवति इति वयं न जानीमः लैफ् इस् वेरि अन्सर्टेन् अण्ड् वेरि शार्ट् वि नेवर् नो वेन् विच् टे केन् बि अवर् लास्ट् डे वि नेवर् नो वि आल् लिव् इन् द ड्रीम् वर्ड् थिन्किङ्ग् दी विल् लिव् हियर् इन् दिस् वर्ल्ड् फ़ार् एवर् रैट् एतत् अन्तिमं सत्यम् अस्ति अतः किशोरावस्थायां आरभ्य किरो आरभ्य अस्माभिः समयस्य सदुपयोगः करणीयः अस्ति इत्युक्ते अस्माकं गृहे बालकाः सन्ति चेदपि तेषां कृते अपि एतादृश सन्देशं सन्देशः सन्देशः दा दातव्यः कि समय किं चेत् समयस्य सदुपयोगः करणीयः प्रत्येकं दिवसः अस्माकम् अन्तिमदिनं भवितुम् अर्हति अतः अस्माभिः सार्थकरूपेण जीवितव्यं तत्र अयो अयोग्यात्मक इत्युक्ते अनेसेसरि आक्टिविटीस् इत्यस्मिन् विषये चर्चा अपि मास्तु समयस्य यापनमपि तत्र मास्तु एत इत, एतस्य मानवजीवस्य प्राप्त्यर्थं तत्र अस्माभिः एतद् मानवजीवं जीवनं बहु सङ्घर्षानन्तरम् अस्माभिः मानवजीवनं प्राप्तम् तर्हि इतः अग्रे अस्माभिः अग्रे गन्तव्यं न तु पृष्ठतः तर्हि आफ्टर् एजेस् आफ्टर् एजस् आफ़् स्ट्रगल् रैट् विट् दिस् ह्यूमन् लैफ् अतः अस्माकं कृते एषः अवसरः प्राप्तः अस्ति इदानीम् अवसरः अस्ति उत्तमः अवसरः प्राप्तः अस्ति अतः अस्माभिः तस्य सम्यक्तया उपयोगः अवसरस्य उपयोगः अस्माभिः करणीयः अस्ति अवसरस्य त्यागः मास्तु अवसरस्य त्यागः मास्तु यदि अवसरं त्यजति चेत् तर्हि पुनः पुनः कदा अवसरः लभ्यते इति अस्माभिः न ज्ञायते अतः इदानीं मानवजीवनं प्राप्तम् इति कृत्वा तस्य सदुपयोगः अति अस्ति अस्तु तर्हि इदानीं ततः अग्रे अत्र तत्र किलं सद्भावः एव पर्याप्तः वा इति चेत् तत्र यदि if i ask people uh, you know they say that uh, you know i am good i am just good right that is more than enough right uh, i am not harming anyone i am not engaged in spirituality spirituality is not for me that's what people say spirituality is not for me i am not harming anyone i am good and that is more than enough why should i engage in spiritual practices why should i be a sadhaka that is what people actually ask right that he uh, तर्हि किं किम् किम अस्ति इति यद्यपि तत्र अहं सम्यक् एव अस्मि अहम् उत्तमः अस्मि अहं कस्यचित् हानिः हानिं न करोमि इति एवम् अस्ति चेदपि परन्तु यदा वयं भौतिककार्येषु यदि भौतिककार्येषु प्रवृत्ताः स्मः तदानीं तदानीं किं भवति इति चेत् लौकिकव्यवहारेण अस्माकं म मा, मनः अधोगतिं प्राप्नोति एव सर्वदा मनः उपरि वादः वा, वा गच्छति एव कदापि समानं न तिष्ठति अतः केवलं सद्भावः एव पर्याप्तः अहं हा। कस्यचिदपि हानिं न करोमि इति तावदेव पर्याप्तम् इति केचन तथा मन्यन्ते तेषां तत्र ते, ते पृच्छन्ति ओ किमर्थं साधना किमर्थं मया इति एतादृश प्रश्नान् कुर्वन्ति तथापि एतादृशचिन्तनं दोषपूर्णम् अस्ति यदि कस्यचित् हानिं न करोति तथापि तथापि किं भवति इति चेत् अहं कस्यापि हानिं न करोमि तथापि अस्माकं पूर्वजन्मनि ये संस्काराः अस्माभिः कृताः तेषां प्रभावः अस्मिन् जन्मनि अपि भवति तर्हि स्वजीवने अविद्यामायाः अज्ञानम् अज्ञानम् अविद्यामायाः तत्र इग्नोरेन्स् एतत् सर्वं किं भवति इति चेत् अस्माकं पूर्वजन्मनि ये कर्मफलानि सन्ति तेषां प्रभावः अस्मिन् जन्मनि भवति इति कृत्वा तेषां प्रभावेन अस्माभिः अनुचितमार्गे एकस्मिन् क्षणे अपि अस्माकं सर्वं परिवर् परिवर्तितं भवितुम् अर्हति अनुचितमार्गे अस्मान् नयति अस्माकं संस्काराः अतः अधोग अधोगमनस्य सम्भावना सर्वदा भवति एव इति कृत्वा यदि वयम वयम् मार्गे भावा महाचे तदानीं अस्माकं मार्गदर्शनं सम्यक्तया भवति तदानीं वि विल् बी मोर् प्रिपेर्ड् टु युनो फैट् वित् अविद्या माया इ् इु आर् इफ़् यु आर् नाट् इफ़् यु जस्ट् थिङ्क् यु आर् गुड् अण्ड् दट् इस् मोर् देन् अनफ् देन् वट् हेपन्स् इस् दट् बिकास् आफ़् द संस्कार द पास्ट् इन् जस्ट् पुल् यु डौन् इन् वन् जस्ट् सेकेण्ड् अण्ड् यु केन् जस्ट् गो इन् द राङ्ग् डैरेक्षन् इन् जस्ट् वन् सेकेण्ड् and in an instant you can become a danger to the society also you never know because your samskaras you never know what your what is there in your samskaras what is there in that bucket of samskaras you never know right itikrutva yada tatra ah tatra adhyatmika margaveyam pravrutta bhavama tadanim we are more prepared to handle the samskaras ataha atmakam purva jivanasyas samskaraha santi iti drishtva मनसः औन्नत्यर्थम् अस्माभिः सर्वदा यत्नः करणीयः अस्ति इत्युक्ते एवमेव अहं भवामि इति न सर्वदा संस्काराः पूर्वजीवनस्य संस्काराः सन्ति एव इति मनसि धृत्वा अस्माभिः मनसः औन्नत्यर्थं प्रयत्नः करणीयः तर्हि साधनायां प्रवर्तयितुं प्रयत्नः करणीयः आध्यात्मिक अभ्यासार्थम् अस्माभिः प्रयत्नः करणीयः साधनाङ्गानां सर्वेषाम् उपयोगेन मनसः तत्र uh, यानि अङ्गानि साधनाङ्गानि अस्माभिः चर्चितानि तेषां सर्वेषाम् उपयोगः अत्यावश्यकः अस्ति इति कृत्वा अस्माभिः पुनः पुनः उच्यते दिस् दिस् योगनिष्ठजीवनम् इस् नाट् जस्ट् तियरि इट् इस् नाट् जस्ट् तियरि इट् इस् नैन्टि नैन् पर्सेण्ट् प्राक्टिस् वन् पर्सेण्ट् यावत्पर्यन्तम् अभ्यासः न भवति तावत्पर्यन्तं न कोऽपि लाभः अत्र केवलम् आगत्य श्रुत्वा वयं गच्छामः चेत् लाभः न भवति अस्माकं जीवने यत्किमपि वयं शृण्मः तस्य अस्माकं स्वजीवने आनयनं प्राक्टिकल् रूपेण आनयम् इति बहु बहु, बहु मुख्यविषयः अस्ति इत्युक्ते अन्यत्र वयं किं वदामः किमपि वदामः उक्त्वा तस्य आचरणं न कुर्मः सत्यं वद इति उक्त्वा तस्य आचरणं न कुर्मः कदापि न कुर्मः सत्यं वद इति उक्त्वा तदनन्तरं तत्र किम् अनृतम् एव वदामः असत्यमेव वदामः इति तथा भवति परन्तु अत्र अस्माकं वर्गेषु तथा नास्ति यत्किमपि वयं वदामः तस्य आचरणं वयं कर्तुं वयं प्रयत्नं कुर्मः तत्र अस्माकम् अवधानं भवति अतः एव एव्रिथिङ्ग् लेट् वि टाक् अबौट् हियर् इस् नाट् तियरि इट् इस् प्राक्टिकल् एव्रिथिङ्ग् वि हेव् टु अप्लै इन् अवर् लैफ़् इम्प्लिमेण्टेशन् इत्यत्र अस्माकं अवधानं भवेत् अद्य अस्माभिः आस, कीदृशवातावरणे जीवामः इति चेत् भौतिकवादी जगत् अस्ति तत्र पूञ्जीपतयः सन्ति केपिटलस् सर्वत्र सन्ति गृहात् बहिः गच्छामः चेत् तत्र अस्माकं मनः क्षीणमेव भवति यत्र कुत्रापि वयं पश्यामः चेत् तत्र अस्माकं मनः तद्दृष्ट्वा तत्र क्ष ख्षा, क्षयमेव प्राप्नोति तर्हि आकर्षणानि सन्ति विज्ञापनानि सन्ति बहिः गच्छामः चेत् माल्स् सन्ति रेस्टोरेण्ट्स् अस्ति सर्वम् अस्मान् अस्मान् आकर्षयति खलु भोजनं बहु किमपि अस्ति बहिः गच्छामः चेत् तर्हि बहिः गच्छामः चेत् तत्र मनः इतः ततः सर्वत्र भ्रमति ओ एतदवश्यकम् एतद् अवश्यकम् इति सर्वत्र भ्रमति परन्तु यदा अस्माभिः योगनिष्ठजीवने प्रवृत्ताः भवामः तदानीम् अस्माभिः तच्चेतनप्रयत्नः अस्माभिः क्रियते तर्हि कथं तत्र आकर्षणात् मुक्तिः कथं भवति इति क्षणैः क्षणैः कालान्तरेण अस्माकम् आकर्षणानि न्यूनानि भवन्ति जीवनस्य लक्ष्यम् अस्माकं लक्ष्यं किम् इति अस्माकं नित्यं स्मरणं भवति स्मरणं भवति अपि च स्मरणम् अस्माभिः करणीयम् अस्माकं जीवनस्य लक्ष्यं किम् इति प्रतिदिनम् अस्माभिः स्मरणं करणीयम् इति कृत्वा तत्र सत्सङ्गः इति विषयः बहु बहु बहु मुख्यः अस्ति अतः तादृशानां सङ्घे अस्माभिः तत्र सङ्घे अस्माभिः इत्युक्ते वयं तादृशसङ्घे भवेम ये ये परमपुरुषस्य विषये चर्चां कुर्वन्ति तस्य च ध्यानं परमपुरुषस्य ध्यानं ये कुर्वन्ति तेषां सङ्गतिः अस्माकं भवेत् अस्माभिः चर्चिताः ये अभ्यासाः आहारः आसनानि साधनाभ्यासः सत्सङ्गः एतत् सर्वं तत्र मनसः औनत्यम् औन्नत्यं प्राप्तुं सहायं कुर्वन्ति सत्सङ्गः सत्सङ्गः इत्यपि एकः अभ्यासः अस्ति एकः अभ्यासः अस्ति तर्हि मनसः आकारः नास्ति अतः यस्मिन् कस्मिन्नपि केन्द्रितं भवति मनः तस्य आकारं गृह्णाति तर्हि यदा वयं सत्सङ्गे भवामः तदा मनसि तत्र मनसः उन्नयनं भवति केन्द्रीकरणं कर्तुम् ऐकाग्र्यं प्राप्तुं च सहायकं भवति सत्सङ्गस्य अस्मिन् सन्दर्भे अतीव शुद्धकेन्द्रीकृता इत्युक्ते तत्र परिभाषा सत्सङ्गः नाम किम् इति चेत् ये जनाः परमपुरुषस्य परमसत्तायाः चर्चां ज्ञानं च कुर्वन्ति तेषां सङ्गः इति सत्सङ्गः एतादृशी एतादृशी सत्सङ्गतिः अस्माकं मनसः उन्नयनार्थं अति आवश्यकं साहाय्यं सहायं च करोति तर्हि अस्तु इति यत् एतत् एत, यत्किमपि एत, एत, एत एतावता चर्चितम् अस्माभिः एतत् सर्वं प्रारम्भिकस्तरे तत्र परिचयरूपेण बहु किमपि चर्चितम् इदानीं वयं किं कुर्मः इति चेत् तत्र परिचयः समाप्तः अत्र परिचय परिचयरूपेण अस्माभिः बहु किमपि किं किम् अस्माभिः अस्माकं स्वजीवने किं किं करणीयम् इत्यस्य विषये एव अधिका अधिका चर्चा जाता खलु इदानीं तत्र क्रमेण अस्माभिः योगस्य योगदर्शनस्य करपत्राणि वयं पठामः अत्र यत्किमपि चर्चितं तस्य विषये अपि पुनः आयाति परन्तु अत्र नूतने अपि आयान्ति परन्तु स्ट्रक्चर्ड् रूपेण वयं करपत्राणि इदानीं वयं पठामः अतः तत्र सर्वे करपत्राणि उद्घाटयन्तु ततः एव वयं अग्रे गच्छामः अस्तु तर्हि अत्र अहं किं वक्तुमिच्छामि इति चेत् अत्र करपत्रेषु करपत्रे, करपत्रे वस्तुतः संस्कृतभाषायामपि अस्ति आङ्ग्लभाषायाम् अपि अस्ति अतः अत्र भवन्तः संस्कृतभाषायां पठितुमिच्छन्ति चेत् पठितुं शक्नुवन्ति आङ्ग्लभाषायां पठितुमिच्छन्ति चेदपि पठितुं शक्नुवन्ति यथा यत यते च अस्तु प्रियाभगिनी आरब्धुमिच्छति वा धर्म धर्मनाभः कः मनुष्य भवती संस्कृतभाषायां पठितुम् इच्छति वा आङ्ग्लभाषायां वा इत्युक्ते अग्रे अग्रिमपरिसरे संस्कृतभाषा अग्रे अस्ति आङ्ग्लभाषायामपि पठित्वा संस्कृतभाषायां पठति वा संस्कृतभाषा एव पठति पठ अस्तु अस्तु अस्तु अस्तु अग्रे पठतु मनुष्याः सृष्टिचक्रे विकसितमाः प्राणिनः सन्ति मनुष्याणाम् प्रतिबिम्बितम् चैतन्यम् स्पृष्टम् भवति इति कारणेन भवति इति कारणेन तु पशुभ्यः सर्वश्रेष्ठाः भवन्ति अर्थात् मनुष्येषु चैतन्यस्य विकासः व्याप्तरूपेण वर्तते इति कारणेन अन्ये जीव् जीवाः मनुष्येभ्यः अधमाः सन्ति कस्मिंश्चिदपि अन्यस्मिन् जीवे एवम् स्पष्टतया चैतन्यं प्रतिबिम्बितम् नास्ति मनुष्याः स्वस्य चैतन्यस्य साहाय्येन शुभाशुभयोः भेदं कर्तुम् शक्नुवन्ति अपि च विपदि उपायाम् अन्वेष्टुम् सर्वथा समर्थाः भवन्ति कोऽपि जीवः दुःखे वा कष्टे नेच्छति विशेषतया विकसितचैतन्ययुक्ताः हा मनुष्याः तु नितराम् दुःखं नेच्छन्ति तेषां चैतन्यम् उपशमसाधनम् अन्वेष्टुं शक्नोति चेतनाशक्तिद्वारा मनुष्याः दुःखात् कष्टात् च निवृत्तिं प्राप्तुं शक्नुवन्ति दुःखसन्ता पर... दुःखसन्तापरहितं जीवनं सुखान सुखानन्दयुक्तम् जीवनं अस्ति तादृशं जीवनमेव जनाः इच्छन्ति सर्वे आनन्दस्य अन्वेषणम् कुर्वन्ति वस्तुतः आनन्दस्य एषना एव मनुष्याम् स्वभावः अस्ति इदानीं पश्यामः मनुष्यः आनन्दप्राप्त्यर्थं केषाम् उपायानां प्रयोगं करोति अपि च आनन्दः तैः साधनैः प्राप्स्यते न वा इति सो so, um, तत्र लिखितमस्ति uh, परब्रह्म परब्रह्मणः सृष्टि परब्रह्म, शुष्टी, सृष्टिम् uh, अति उत्तम प्राणिः मनुष्यः अस्ति अपि च तस्य uh, विकसम् अपि uh, सः uh, मनुष्यः एव विकसिततमः अस्ति प्राणिनः अस्ति मनुष्याणां यत् चैतन्यम् अस्ति तस्य चैतन्यं दृश्यते तेन कारणेनैव वयं वा वक्तुं शक्नुमः उत पशुभ्यः श्रेष्ठः सर्वश्रेष्ठः मनुष्यः एव इति किन्तु मनुष्याणां अपि सर्वे शैतन्यं विकसितरूपं न वर्तते अतः अतः यत् विकसितं प्राप्नु प्राप्तुं शक्नुमः तत् तत् स्तरी तत् स्तरे मनुष्यः नास्ति बहवः मनुष्यः अधमः जीवः एव जीवनमेव व्यथन्ति कस्मिंश्चित् जीवे एतत् चैतन्यं स्पष्टी स्पष्टतया प्रतिबिम्बं तस्य जीवने तस्य मनसि एतत् चैतन्यं पूर्णतया प्रतिबिम्बं नास्ति एत एतत् चैतन्य चैतन्येन सहायेन एव विवेकेन एव शुभाशुभेदं मनुष्यः कर्तुं शक्नोति अपि च विप विपदि आपतति चेत् उपायमपि अन्वेष्टुं कर्तुं समर्थः मनुष्यः अस्ति कोऽपि मनुष्यः दुःखेन न च न तु कष्टेन सह जीवितुं न इच्छति न इच्छत् अपि च यः अपि च मनुष्यः सर्वदा सुख सुखम् अनन्द आनन्देन एव जीवितुम् इच्छन्ति मनुष्यस्य चेतन शक्तिद्वारा एव दुःखात् वा निवारितुं शक्नुवन्ति इदानीमपि सर्वे मनु मनुष्य आनन्दस्य अन्वेषणम् एव कुर्वन कुर्वन् अस्ति वस्तुतः मनुष्यस्य स्वभावः अपि आनन्द आनन्दम् एव इदानीमपि मनुष्यः आनन्दप्राप्त्यर्थं केचन चेष्टाः कुर्वन्ति कुर्वन् कुर्वन्तः अस्ति के केचन उपा उपायानां स्वीकृत्य आनन्दः तैः साधनैः प्राप्यते इति प्रयत्नं कुर्वन् प्रयत्नं करोति समीचीनं भगिनि समीचीनं तत्र सर्वेषाम् अर्थबोधः जायते वा एकम् एव भगिनि तत्र उपश उपशंसाधनम् उपश्या, उप, इत्युक्ते किं भगिनि तत्र कोऽपि जीवः दुःखे वा कष्टे वा न जीवितुं न इच्छति विशेषतया विकसितचैतन्ययुक्ताः हा मनुष्याः तु नितरां दुःखं नेच्छन्ति तेषां चैतन्यम् उपशमसाधनम् अन्वेष्टुं शक्नोति उपशमसाधनम् इत्युक्ते उपशमसाधनम् इत्युक्ते उपशमनार्थं साधनम् उपशमनार्थम् दुःखस्य उपशमनार्थं साधनं दुःख उपशमनार्थं साधनस्य अन्वेषणम् इत्युक्ते दुःखस्य शान्त्यर्थं दुःखस्य परिहारार्थं साधनस्य अन्वेषणं खलु कोऽपि दुःखं न इच्छति दुःखस्य परिहारः कथम् इति सः उपायस्य अन्वेषणं करोति अस्तु अत्र अस्मिन् परिच्छेदे किम् उक्तम् इति चेत् अस्माकं सृष्टिचक्रे यदा जगतः सृष्टि जगतः सृष्टिप्रक्रियां प्रक्रियां वयं पश्यामः चेत् तत्र अग्रे तस्य विषये विस्तृततया चर्चा भवति परन्तु सृष्टिचक्रे मनुष्याः एव विकसितमाः प्राणिनः सन्ति विकसितमाः प्राणिनः सन्ति मनुष्यं विहाय मनुष्यं विहाय अन्यः प्राणिनास्ति नास्ति यस्य विकासः तथा अस्ति इत्युक्ते तत्र मनुष्यः एव विकसितमाः विकसितमाः अस्ति तर्हि मनुष्य अर्थात् समग्रे जगति मनुष्याणाम् अपेक्षया उच्चतरः जीवः नास्ति इत्यर्थः मनुष्याणाम् अपेक्षया उच्चतरः जीवः नास्ति यतोहि यथा वयं पूर्वं चर्चां कृतवन्तः तत्र अस्माकं तत्र विज्ञानेन सह अस्माकं समर्थनमस्ति इति मया पूर्वमपि उक्तं तत्र डार्विनियन् एवल्युशन् इति तर्हि सङ्घर्षेण क्रमेण क्रमिकविकासः अभवत् प्रथमं फ्रम् प्लाण्ट्स् फ्रम् सिङ्गल् सेल् आर्गानिज़म्स् टु ग्राजुलि इवाल्व् टु प्लाण्ट्स् सस्यानी तदनन्तरं पशवः एनिमल्स् तदनन्तरम् अंततो गत्वा मनुष्याः विकसिताः इति तत्र योगस्य अपि तादृशविचारस्य समर्थनम् अस्ति आधुनिकवि विज्ञानेन यद् उक्तं तस्यैव समर्थनमस्ति योगे अपि तर्हि परन्तु तत्र भेदः कः इति चेत् आधुनिकविज्ञानं सम्पूर्णचित्रं न पश्यति परन्तु योगः सम्पूर्णचित्रं पश्यति तत्र योगदर्शने सम्पूर्णतया तत्र न केवलं क्रमिकविकासः मनुष्यपर्यन्तं परन्तु ततः अग्रे अपि किं भवितुम् अर्हति तत्र परमात्मानं परमात्मनः प्राप्त्यर्थं किं किम् आवश्यकम् इति तत्सर्वं समग्रतया योगदर्शने तत्सर्वम् उच्यते अत्र प्रासिङ्गिकविषयः अस्ति दार्विनियन् एवल्युशन् इति दार्विनस्य विकासः इति प्रासङ्गिकविषय विषयः अस्ति सङ्घर्षेण सर्वे जीवाः विकसिताः भवन्ति मनः च नित्यं विकसितं भवति यदा जीवाः विकसिताः भवन्ति तदानीं मनः अपि वर्धते मनसः अपि विकासः भवति तर्हि वन्ये तत्र वनेषु ये प्राणिनः सन्ति ते जीवनार्थं सङ्घर्षं कुर्वन्ति खलु सङ्घर्षं कुर्वन्ति प्रतिदिनं सङ्घर्षं कुर्वन्ति जीवनार्थम् आहारनिद्रा भयं मैथुनम् इति सर्वं प्राप्तुं ते सङ्घर्षं कुर्वन्ति अनेन सङ्घर्षेण मनसः क्रमिकरूपेण प्रगतिः विकासः जायते सङ्घर्षेन मनसः प्रगतिः जायते तर्हि सङ्घर्षानन्तरं बहुकाला बहुकालानन्तरं क्षणैः क्षणैः क्षणैः स पशुः मनः इतोपि विकसितं भवति यत् अने अनेन विकासेन पशवः इतोपि उच्चतरकार्यं कर्तुं समर्थाः भवन्ति तस्य शारीरिकरूपेण अपि विकासः भवति मनसः अपि विकासः भवति पश, पशु पशूनां परन्तु वयं मनुष्याणां विषये वयं पश्यामः चेत् मनुष्याः विकसितमाः सन्ति तेषां यद्यपि तेषां ते विकासः तु भवति परन्तु इतोपि अधिकविकासः तेषां न भवति सृष्टेः पूर्तिः विकासद्वारा मनुष्यस्तरीय मनुष्याणां स्तरपर्यन्तमेव अस्ति इत्युक्ते बियाण्ड् द ह्यूमन्स् देर् इस् नो फर्दर् एवल्यूषन् द फुल्फिल्मेण्ट् आफ़् द क्रियेशन् कम्स् थ्रु द एवल्युशन् टु द पाय्ण्ट् आफ् ह्युमन् बीङ्ग्स् इति अर्थः खलु मनुष्याणाम् इच्छा भवति अनन्तं प्राप्तुं मनुष्याणाम् इच्छा अस्ति मनुष्याणाम् अनन्तेषणा अस्ति तर्हि मनुष्याः अनन्तात् एव आगताः तर्हि एषः गुणः एषः गुणः तत्र अनन्तेषणा इति गुणः जगतः समग्रप्रयोजनस्य सिद्ध्यर्थं पर्याप्तः अस्ति द द गोल् आफ़् क्रियेटिङ्ग् द युनिवर्स् गेट्स् फुल्फिल्ड् बै दिस् अनन्तेषण मनुष्याः प्रगतिशीलाः भवेयुः परन्तु ते अतिरिक्तं प्रगतिशीलाः तु भवन्ति परन्तु अतिरिक्तं किमपि अधिकं विकासं विकासः न भवति यतः मनुष्याणाम् आनन्तं ज्ञातुम् इच्छा दे आर् द मोस्ट् इवाल्ड् बीङ्ग्स् इतः अग्रे तेषां विकासः नास्ति तेषाम् इदानीं लक्ष्यं तु अनन्तप्राप्तिः एव अत्र अन्यः विषयः अस्ति अत्र उक्तमस्ति मनुष्याणां स्पष्टतया प्रतिबिम्बितं चैतन्यं वर्तते इति तस्य अर्थः कः स्पष्टतया क्लियर्लि रिफ्लेक्टेडेडेडेडेडेड् कान्शियस्नेस् ह्यूमन् बीयङ्ग्स् हेव् अ क्लियर्लि रिफ्लेक्टेड् कान्शियस्नेस् इति उक्तं तस्य अर्थः कः इति चेत् अत्र यदि तत्र किं सरोवरः अस्ति सरोवरे जलमस्ति तर्हि सरोवरे यदा तत्र जलं स्वच्छमस्ति तत्र मलिनं किमपि नास्ति स्वच्छमस्ति चेत् तदानीं चन्द्र चन्द्रस्य रात्रौ चन्द्रस्य प्रतिबिम्बः स्पष्टतया दृश्यते तत्र सरोवरे चन्द्रस्य प्रतिबिम्बः स्पष्टतया दृश्यते यदा सरोवरे जलं स्वच्छमस्ति तदानीं प्रतिबिम्बः स्पष्टतया दृश्यते यदि तत्र सरोवरे मलिनमस्ति तदानीं तत्र चन्द्रस्य प्रतिबिम्बः स्पष्टतया न दृश्यते अत्र मनुष्याणां विषये वयं पश्यामः चेत् यथा सरोवरे जलं स्वच्छम् अस्ति तदानीं चन्द्रस्य प्रतिबिम्बः स्वच्छतया दृश्यते तथा अस्माकं मनः तथा वर्धितम् यत्र चेतनस्य परमपुरुषस्य प्रतिबिम्बः स्वच्छतया अस्ति स्पष्टतया अस्ति चेतनस्य प्रतिबिम्बः अस्माकं मनसि स्पष्टतया अस्ति यदा अस्माकं मनः स्वच्छं भवति शुद्धं भवति इफ् अवर् मैण्ड्स् आर् प्योर् अण्ड् क्लीन् देन् द कान्शियस्नेस् इस् फुल्लि रिफ्लेक्टेड् इन् ह्यूमन् बीङ्ग्स् दिस् फुल्लि रिफ्लेक्टेड् कान्शियस्नेस् दर् ओन्लि इन् ह्यूमन् बीङ्ग्स् नाट् इन् अदर् बीङ्ग्स् बिकास् अवर् मैण्ड् इस् फुल्ली डेवलप्ड् अस्माकं मनः सम्यक्तया वर्धितमस्ति सम्पूर्णरू रीत्या वर्धितमस्ति इति कृत्वा तत्र पशूनाम् स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते मनुष्याणाम् अनेन मन् मनुष्याः स्वस्य अस्तित्वस्य विषये अवगताः सन्ति ते मनुष्याः स्वस्य अस्तित्वस्य अस्तित्वस्य विषये जानन्ति किम् उचितं किम् अनुचितम् इति ज्ञातुं शक्नुवन्ति तर्हि अनन्तकामनां ते अनुभवन्ति अनन्तेषां ते अनुभवन्ति मनुष्याः अनुभवन्ति एतद् स्पष्टतया प्रतिबिम्बित चैतन्यं वर्तते मनुष्याणाम् इति कृत्वा ते अनन्तकामनाम् अनुभवन्ति अनन्तकामनाम् अनुभवन्ति परं परमपुरुषस्य साक्षात्काराय तेषां सामर्थ्यमपि भवति सामर्थ्यमपि भवति तत्र स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा तेषाम् अनन्तकामना अनन्तेषणा भवति अनन्तप्राप्त्यर्थं सामर्थ्यमपि भवति इति तत्र विशेषः वर्तते पशूनाम् अपेक्षया एतादृशवैशिष्ट्यं वर्तते मनुष्याणाम् तेषां स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा एव स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा एव मनुष्याः पशुभ्यः सर्वश्रेष्ठाः भवन्ति अर्थात् <Santhi> ते अन्ये पशवः मनुष्येभ्यः अधमाः सन्ति अधमाः सन्ति तर्हि मनुष्येषु अन्ये अन्येषु जीवेषु चैतन्यम् एतावता स्पष्टतया प्रतिबिम्बितं नास्ति यथा मनुष्येषु अस्ति तथा नास्ति पशु पशु पशुषु तर्हि मनुष्याः स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा एव शुभाशुभयोः विषये आलोचनं कर्तुं शिक् शक्नुवन्ति एतत् समीचीनं वा एतत् समीचीनं नास्ति वा अस्मिन् मार्गे अहं गच्छामि वा न गच्छा वा अन्यत्र गच्छामि वा न वा इत्येतादृशविचारं कर्तुं शक्नुवन्ति तर्हि यदि तत्र विपदि इत्युक्ते तत्र यदा क्लेशाः भवन्ति कष्ट कष्टं कष्टः आयाति तदानीं तदा तदानीं ते तस्मिन् सन्दर्भे किं कर्तव्यम् इति ते विचारं कर्तुं शक्नुवन्ति उपायस्य अन्वेषणमपि कर्तुं शक्नुवन्ति तेषां सामर्थ्यम् अस्ति सर्वं तु स्पष्टतया प्रतिबिम्बितचैतन्यं यद्वर्तते तेन कारणेन एव अपि च विषयः अस्ति अस्माकं सम्पूर्णस्थितिचक्रे कोऽपि प्राणिः दुःखेन जीवितुं न इच्छति दुःखेन जीवितुं कोऽपि न इच्छति तर्हि पशुः वा भवतु सस्यं वा भवतु सिङ्गल् सेल्ड् आर्गानिज़ं वा भवतु यत् किमपि भवतु नाम कोऽपि तत्र दुःखे दुक्य, दुःखेन जीवितुम् इच्छति परन्तु स्वस्य स्वस्य सुखस्य मापनं भिन्नभिन्नरीत्या भिन भवति तर्हि तत्र सस्यानां विषये वयं पश्यामः चेत् एतत्तु पूर्वमपि चर्चितं सस्यानां विषये वयं पश्यामः चेत् सस्यस्य कृते जलमस्ति सम्यक् वातावरणमस्ति चेत् सस्यं तु सुखेन भवति पशूनां विषये वयं पश्यामः चेत् पशु पशोः कृते आहारनिद्रा भयम् मैथुनम् इति एतत् सर्वमस्ति चेत् तत्र पशुः अन्नम् अन्नं पशु पशुः अन्नं प्राप् पशुना अन्नं प्राप्यते चेत् सः तत् स्वीकृत्य निद्रामेव करोति अन्यत् किमपि न तस्य कृते एवं मनुष्याणां मनुष्याणामपि मनुष्याः अपि सुखेन एव इच्छन्ति Uh, दुःखं कोऽपि न इच्छति तर्हि मनुष्य अन्यप्राणिः अपि दुःखं न इच्छति मनुष्याः तु विकसितयुक्त चैतन्ययुक्ताः सन्ति अस्माकं तु चैतन्यम् इतोपि विकसित विकसितं युक्त, वर्तते क्लियर्लि रिफ्लेक्टेड् कान्शियस्नेस् अस्ति इति कृत्वा नितरां दुःखं न इच्छति मनुष्यः तर्हि uh, तत्र दुःखस्य निवारणार्थं दुःखस्य परिहारार्थं uh, तत् तेषां स्पष्टतया प्रतिबिम्बितचैतन्यं वर्तते इति कृत्वा ते दुःखस्य परिहारार्थं यत्नं कुर्वन्ति अन्वेषणं कर्तुं शक्नुवन्ति तर्हि ते ते ते तेषां चेतनाशक्तिद्वारा ते चेतना दुःखात् निवृत्तिमपि प्राप्तुं शक्नुवन्ति दुःखपरिहारः कथं भव भवितुमर्हति सुखस्य सुखः सुखं कथम् अहं प्राप्तुं शक्नोमि इति ते तु अन्वेषणं कर्तुं शक्नुवन्ति इति कृत्वा सर्वे जीवाः सुखमेव इच्छन्ति आनन्दस्य अन्वेषणमेव वा सर्वे जीवाः कुर्वन्ति अत्र विशेषतया मनुष्य पशूनाम् अपेक्षया मनुष्यस्य मनुष्याणां भेदः कः इति चेत् मनुष्येषु अनन्तेषणा वर्तते तादृशी एषणा पशुषु न वर्तते इति कृत्वा आनन्दस्य एषणा एव अनन्तेषणा आनन्दस्य एषणा एव मनुष्याणां स्वभावः अस्ति मूलस्वभावः अस्ति तदेव मनुष्याणां धर्मः अस्ति मन् मानवधर्मः इति यद्वयं वदामः तदेव अनन्तेषणा एव मानवधर्मः अस्ति तर्हि तर्हि इदानीम् अग्रे वयं पश्यामः मनुष्याः आनन्दप्राप्त्यर्थम् आनन्दप्राप् प्राप्त्यर्थं किं किं कुर्वन्ति कैः साधनैः आनन्दः तैः प्राप्यते इति वयम् अग्रे वयं पश्यामः अग्रिमपरिचेदे तर्हि इदानीम् अग्रे गन्तुं शक्नुमः तर्हि शान्ताभगिनी पठितुमिच्छति वा न वा अस्तु तर्हि रीमा भगिनी पठितुमिच्छति वा अस्तु भगिनि पठतु आङ्ग्लभाषायां पठितुं शक्नोति संस्कृतभाषायामेव पठितुं शक्नोति फैल् योट् एबल् टु ओपन् dharma kah aaya naik i was uh, yeah, like, uh, now uh, i was watching I, i was going through when the darbagni was reading at uh, suddenly I'm able to, i managed to as soon as the one second one second i got it just so. uh, give me one second. will go to uh, whatsapp and sister uh, uh, pick up the file again now mm -hmm. never i have downloaded i am unable to open now. it says uh, it's it's asking like or uh, pick up some suitable uh, this one to सामान्य पी डि फैल् एव अस्ति भगिनि पी डि एफ़् फ़ैल् एव अस्तु तर्हि सरला बद्मि कृपया पठतु सरलाभद्नि पठितुं यच्छनोति वा इदानीं इदानीं श्रूयते श्रूयते भगिनी अस्तु आनन्दान् आनन्द अन्वेषणे मनुष्याः प्रथमं शारीरिकभोगान् प्रति आकृष्टाः भवन्ति मनुष्याः धन सञ्चयं कृत्वा सुखेच्छायाः पूर्तिः अर्थं शक्तिं पदवीं न प्राप्तुं प्रयतन्ते यस्य पदवीं प्राप्तुं च प्रयतन्ते पदवीं च प्राप्तुं प्रयत् पुनः पठामि धनसञ्चयम् कृत्वा सुखे छया पूर्ति अर्थं शक्तिं पदवीं च प्राप्तुं प्रयतन्ते यस्य पार्श्वे शतः रूप्यकाणि सन्ति सः तैः अतृप्तः सन् सहस्रं रूप्यकाणि प्राप्तुं प्रयतते परन्तु सहस्रं रूप्यकाणां स्वामित्वे अपि सः तृप्तः न भवति सः लक्षरूप्यकाणां स्वामित्वम् इच्छति एवं क्रमशः तस्य धनेच्छा वर्धते एव तथैव अधिकार इच्छया इच्छायाः विषये अपि यः स्वस्य मण्डले स्वस्य एव क्रमशः तस्य धनेच्छा वर्ते वर्तते आ, वर्धते एव तथैव अधिकेर अधिकार इच्छायाः विषये अपि यः स्वस्य मण्डले प्रभावं जनयितुम् समर्थं सः सम्पूर्णप्रदेशे प्रभावं जनयितुम् इच्छति एवमेव कश्चन प्रदेशनेताः राष्ट्रनेता भवितुम् इच्छति राष्ट्रनेतृत्वं प्राप्य विश्वनेता भवितुं तस्य मनसि इच्छा जागृता भवति अतः केवलं धनार्जनम् अधिकारः पदवीं वा मनुष्य न तोषयति अर्थात् कस्यचित् सीमितस्य प्राप्तिः केवलं अधिकस्य अभावं जनयति आनन्दान् आनन्दान् अनन्दात् अन्वेषणस्य समाप्तिः च न भवति एव मनुष्यस्य अनन्तान् आनन्दान् अन्वे आनन्दान् आनन्दान्वेषणस्य आनन्दस्य अन्वेषणस्य समाप्तिः च न भवति एव मनुष्यस्य अनन्ताः शुद्धा अतृप्ताः एव तिष्ठेत् अर्थात् तस्य शुद्धाया तृप्तिः न भवति मनुष्य यत्किमपि प्राप्नोति तस्मात् अधिकाधिकम् इच्छति अतः तस्य शुद्धायाः निवृत्तिः कदापि न भवति मनुष्यस्य आनन्दप्राप्तेः एषा अनन्ता सीमा रहिता च अत्र अस्मिन् परिच्छेदे इति सूचयति सर्वे मनुष्याः आनन्दम् इच्छन्ति आनन्दं प्राप्तुम् सुखं प्राप्तुं तेषां प्रयत्नं सदैव प्रचलति यदि किञ्चित् प्राप्न प्राप्नोति तस्य अधिकं तस्य इच्छा भवति तस्य अधिकम् इति तस्य इच्छा अधिका अधिका इति उत्तरोत्तर अधिका, अधिका भवेत् इति कदापि इच्छायाः पूर्तिः न भवति उदाहरणमस्ति यदि कोऽपि स एकशतं रूप्यकाणि प्राप्तुम् इच्छति यदि प्राप्नोति तदनन्तरं तस्य इच्छा अति इदानीं तृप्तिः न भवति किञ्चित् सन्तुष्ट भवति तदानीं तदनन्तरं सहसहस्ररूप्यकाणि इष्टुम् चाह इच्छति तदनन्तरं यद् सहस्र प्राप्नोति तदनन्तरं एक लक्ष लक्षस्य तदनन्तरं एकक्रोडम् इति अधिकानि अधिकानि तस्य कदापि तस्य इच्छायाः पूर्तिः एव न भवति सन्तुष्टाः मानवः मानवः कवि कदापि न भवन्ति एक इच्छा पूर्तिकरार्थं यत् जद यत्नं करोति तस्य अधिकम् अन्य पूर्ति करोति क्रमेण अधिका अधिका बहवः इच्छायाः इच्छाः आगच्छन्ति तस्य पू पूर्तिकरणार्थं तस्य जीवनम् इति व्याप्नोति इति कदापि सः अनन्तस्य इष्ट्रा यत् अस्ति तत् प्राप्तिः कदापि न भवति कारणकीति सीमितम् अस्ति इति सुखं यत् सीमितं भौतिक इच्छायां भवति न केवलं धनम् अपि कोऽपि पदवी यदा अहम मम कुटुम्बे इदानीं नेता कुटुमस्य अहं श्रेष्ठा अस्मि श्रेष्ठा अस्मि तदनन्तरं मम मम या भवति मम कम्युनिटि तस्य अहं नेता भवतुमिच्छामि तदन तदनन्तरं न केवलम् इति मम कम्युनिटि तस्य अनन्तरम् अहं नगरस्य नेता भवतुम् इच्छामि इति इच्छाया कापि अन्तं नास्ति नगरस्य तदनन्तरम् अहं मम देशस्य नेता तद् देशस्य अनन्तरं विश्वस्य प्रसिद्धं प्रसिद्धिः इच्छामि इति उत्तरोत्तर इच्छा च पूर्तिः न भवति अनन्त इच्छायाः पूर्तिः कथा भवति इति अत्र प्रदर्शितम् अस्ति समीचीनं भगिनि सम्यक् सम्यक् सम्यक्तया उक्तवती आम् इति एव अस्ति तत्र विषयः इत्युक्ते मनुष्यः यत्किमपि न श्रूयते वा अच्चा अच्चा ओके ओके ओके थेङ्क्यू तर्हि तर्हि तत्र किमस्ति इत्युक्ते मनुष्यः यत्किमपि अस्ति धनं वा भवतु शक्तिः वा भवतु पद पदवी वा भवतु यत्किमपि भवतु यत् यत्किमपि प्राप्यते चेदपि सः तुष्टः न भवति सः सः इतोपि अधिकम् इच्छति तस्य अधिककामना अस्ति तर्हि किमर्थमेवमस्ति इति चेत् किमर्थम् एतादृशी परिस्थितिः अस्ति इति चेत् अस्माकं मनुष्याणाम् अनन्तेषणा वर्तते वि हाव् द इन्फैनैट् डिसैयर् इति कृत्वा यत्किमपि लभ्यते चेत् अस्माकं तृप्तिः न भवति यत्किमपि प्राप्यते चेत् इतोपि अधिकम् इच्छामः अस्माकम् इच्छा असीमा अस्ति अनन्त अस्ति तर्हि अस्मिन् अनुच्छेदे मनुष्याणाम् अनन्तस्य विषये स्वाभाविकी इच्छा वर्तते सहज इच्छा, इच्छा वर्तते इति अस्माभिः चर्चा कृता यदा मनसः वर्धनं न भवति तदा शारीरिकभोगेषु अनन्तम् अन्वेषयामः शारीरिकभोगेषु यतो यत् यतोहि अस्माकम् अनन्तेषणा वर्तते मनसः वर्धनं नास्ति चेत् तर्हि लौकिकविषयेषु एव मनः गच्छति अतः तत्र शारीरिकभोगेषु एव अनंतस्य अन्वेषणं कुर्वन्ति इति कृत्वा सीमित सीमित सीमितवस्तुषु सीमितवस्तुषु तत्र तस्मिन् चक्रेव एव पतति तत् तत्रैव पतति विषय सैकिल् मध्ये पत पतामः यत्किमपि प्राप्यते इतोपि अधिकम् इच्छा इतोपि अधिकमिच्छामः इतोपि अधिकमिच्छामः इति तस्मिन् सैकिल् एव मध्ये एव वयं पतामः यतोहि अस्माकम् अनन्तेषणा अस्ति अनन्तेषणायाः अन्वेषणं वयं लौकिकवस्तुषु वयं कुर्मः इति कृत्वा अतः एव वयम् अधिकम् अधिकम् अधिकम् इच्छामः तर्हि लौकिकवस्तुषु वस्तुभ्यः मनसः अनन्तकामना म मनसि या अनन्तकामना वर्तते तस्याः पूर्तिः कदापि न शक्यते अनन्तकामनायाः पूर्तिः कदापि न शक्यते अनन्तकामना मानवस्य धर्मः अस्ति मानवस्य धर्मः इत्यनेन सम्बन्धितः अस्ति सम्बन्धिता अस्ति अनन्तकामना तर्हि ये जनाः अनन्तकामनाम् इच्छन्ति ते इत्युक्ते सर्वे जनाः अनन्तकामनाम् इच्छन्ति इति कृत्वा सीमितधनेन लौकिके लौकिके ये वस् यानि तानि सर्वाणि सीमितानि देर् आर् लिमिटेड् आब्जेक्ट्स् खलु तर्हि तेन सीमितधनेन अथवा शक्तिना प्रतिष्ठया वयं सन्तुष्टाः न भवामः इति अत्र दर्शितं वर्तते तर्हि अत्र सम्पूर्णं विश्वं प्राप्यते चेदपि सम्पूर्णः विश्वः प्राप्यते चेदपि अत्र अस्माभिः अनन्तसुखं न प्राप्तुं शक्नुमः सम्पूर्णः विश्वः प्राप्यते चेदपि अस्माभिः अनन्तं सुखं प्राप्तुं न शक्नुमः स्थायि सुखं प्राप्तुं न शक्नुमः किमर्थं चेत् सम्पूर्णविश्वः अपि सीमितः एव अस्ति इति कृत्वा तर्हि संसारस्य सर्वेषां विषयाणां परिमितिः वर्तते परिमितिः वर्तते दे हेव् अ लिमिट् लैट् एव्रिथिङ्ग् इस् इस् लिमिटेड् रैट् इ् यु टेक् वेल्त् इट् इस् नाट् अन्लिमिटेड् रैट् यु केन् कौण्ट् इट् इस् लिमिटेड् सो यत्किमपि भवतु वस्तु जगति सर्वस्य सीमा वर्तते तर्हि एतेभ्यः वस्तुभ्यः अस्माकम् अनन्तं सुखं न लभ्यते तर्हि ओके तर्हि तत्र अस्मिन् अनुच्छेदे लौकिककार्याणि मनुष्याणाम् अनन्तकाम कामनान् कामना कामना कामनाः अनन्तकामनाः कदापि पूरयितुं न शक्नुवन्ति इति बोधयति तर्हि अनन्तसुखं प्राप्तुं किं कर्तव्यम् इति चेत् तत्र शाश्वतं सुखं प्राप्तुम् अनन्तं प्रति अनन्तस्य अन्वेषणम् अस्माभिः कर्तव्या अनन्तेषणा अस्माभिः कर्तव्या तर्हि तदेव अत्र उक्तमस्ति सामान्यतया आनन्दस्य अन्वेषणं कुर्वन् मनुष्यः शारीरिकभोगान् प्रति गच्छन्ति सा शारीरिकभोगानाम् अन्वेषणं कुर्वन्ति तदर्थं धनसञ्चयं कुर्वन्ति सः चिन्तयति धनसञ्चयेन मां सुखं प्राप्नोमि अथवा यत्किमपि लौकिकवस्तु अस् अस्ति वस्त्रमस्ति अथवा तत्र शूस् अस्ति यत्किमपि शूस भवतु तस्य सञ्चयं कुर्वन्ति चिन्तयति तद् ओ सुखं प्राप्नोमि अथवा बहिः तत्र कार्यालये इतोपि इतो अधिकं पदवीं प्राप्नोति चिन्तयति अहम् आनन्दं प्राप्नोति इति प्राप्नोमि इति परन्तु वस्तुतः यत्किमपि लौकिकवस्तु अस्ति तस्मात् तत्र इतोपि अधिका इच्छा एव वर्धते इतोपि इतोपि आवश्यकम् इतोपि आवश्यकम् इति कदापि तृप्तिः न जायते सीमितस्य वस् सीमित, वस... सीमित... सीमितेभ्यः वस्तुभ्यः अस्माभिः तृप्तिः कदापि न प्राप्तुं शक्नुमः आनन्द आनन्दस्य अन्वेषणस्य समाप्तिः न भवति लौकिकवस्तुषु तर्हि किमर्थमेवं किमर्थमेवम् इति चेत् मनुष्येषु अनन्तेषणा वर्तते अनन्तेषणा वर्तते तस्य पूर्तिः तस्याः क्षुधायाः तृप्तिः अनन्तेषणायाः तृप्तिः यत्किमपि लौकिकवस्तु वस् वस्तु प्राप्यते चेदपि तृप्तिः न भवति तस्य तादृशक्षुदायाः निवृत्तिः न भवति तर्हि कदा निवृत्तिः भवति इति चेत् य यः परमपुरुषः अस्ति यस् यः अनादिः अस्ति यस्य आदिः नास्ति अन्तः नास्ति तादृशस्य प्राप्तिः यदा भवति तदानीमेव अस्माकम् अनन्तेषुना पूरिता भवति यतोहि परमपुरुषस्य सीमा नास्ति सः सीमारहितः अस्ति तादृशसीमारहितस्य प्राप् प्राप् प्राप्तिद्वारा एव अस्माकम् अनन्तेषुना पूरिता भवति इति अस्मिन् परिच्छेदे विषयः अस्ति अस्तु बहु समीचीनं तर्हि अत्र कोऽपि प्रश्नः वा सम्यक् तर्हि इतोपि अग्रे बहु रुचिकरं भवति अत्र सृष्टिः सृष्टिः कथं जाता इति विषये बहु अधिकं अधिकचर्चा वर्तते तद् पश्यामः बहु सम्यक् कथं कथं सृष्टिः जाता इति तस्य विषये अग्रे पठामः तर्हि अत्र स्थगनं कुर्मः अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादभागिदामि धन्यवादः नमस्कारः